सर्व सर्वलोकानाम् भिषजे भवरोहिणा निधजय सर्वविद्यानाम् श्रीदक्षिणामूर्तजय नमा ओ गणान्त्वा गणपतिगुम् हवामहे कविम् कभीनामुपमश्रवस्तवम् कभी जैर्षराजम् ब्रह्मणाम् ब्रह्मणस्पथ आरशृ्वन्नोतिभिः सेदसादनम् ओम् श्रीमहागणपत ये नमः ॐ सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वभा भवोद्भवा जनमः वामदेवाय नमो ज्येष्ठा जनमश्रेष्ठा जनमो रुद्राय नमः मकालायनमः कलविकर्णायनमो विकरणाय नमो बलाय नमो बलप्रवथणाय नमः सर्वभूतदमणाय नमो मनोन्मनाय नमः अघोरेभ्यो सर्वे एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविद्यानामेश्वरः पतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नभो नमः शरी रुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषेः अनुट्टुप्न्तः सङ्कर्षणमोद्यस्वलोपो योऽसावादित्यः परमपुरुषस्य एष रुद्रो देवता नमः शिवायति बीजम् शिरतरायति शक्तिः महादेवायति केलकं। श्रीशाम्ब परमेश्वर प्रसाद सिद्ध्यर्थे श्रीरुद्रजपे विनियोगः अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः दृशपोर्णमासात्मने तर्जनेभ्यां नमः चातुर्मास्यात्मने मध्यमाभ्यां नमः निरोढवशुबन्धात्मने अनामिकाभ्याम् नमा ज्योतिष्टो वात्मने कनिष्ठिकाभ्याम् नमा सर्वक्रत्वात्मने करतनकरपृष्ठाभ्याम् नमा अग्निहोत्रात्मने हृदयाय न नमा। वार्षपोर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषटे निरोलव सुबन्धात्मने कवचाय अहम् ज्योतिष्टोमात्मने नेत्रयाय सर्वकृत्वात्मने हस्त्राय भटे भूर्भवस्वरो यिरिग्बन्धः ध्यानम् आपातालभस्थलान्तभवन ब्रह्माण्डमा विस्फुरत् ज्योतिः स्पाटिकलिङ्गमौनिविल सत्त्वो न ध्रुवान्तास्तोपाप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्चपन्ने ध्याये दीप्सित सिद्धये ध्रुवपदम् विप्रोभ्ये शिवम् कण्ठे कालाः कबर्दाः कलितशिकलाश्चण्डको दण्डहस्ताः रक्षा रुद्राक्षमालाः प्रकटित विभवाः साम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसोक्त प्रकटित विभवाः प्रयच्छन्तु सौख्यम् सञ्च मे वर्यश्च मे प्रयञ्च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृजिश्च मे विश्रञ्च मे संविच्च मे धात्रञ्च मे सोश्च मे प्रसोश्च मे नयश्च मे घृतञ्च मे मृतञ्च मे लक्ष्मञ्च मे नाम गच्छ मे देवातुश्च मे दीर्घागृत्वञ्च मे धनमित्रञ्च मे भजञ्च मे सुगञ्च मे सगनञ्च मे शोषाच मे सुदीनञ्च मे ॐ शान्तिशान्तिः शान्ति भगवते रुद्राया नमस्ते रुद्रमण्यमभुतोदयशवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुदते नमः यातयिषु शिवतमा शिवम् बभूव ते धनु शिवा शरव्यायातवत या नो रुद्रमृणया या चे रुद्रशिवा तनो रघोरापापकाशिनी प्रजा नस्तनु वा सन्तमजागिरिशन्ताभिजाकशीः यामि शृङ्गिरिशन्त हस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् करुबाहि गंसे पुरुषम् जगत् शिवे न वचसात्वा गिरिशाच्छा वदामसि यथा नः सर्वभवेज्जगदक्ष्मगुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो देव्योऽभिषगे अहेगश्च सर्वा अजम्भयन् सर्वा आश्च असौ यस्ताम्र अरुणबुत बभ्यः स्वमङ्गलः ये चेवागुम् रुद्रा अभितो जक्षुष्यता सहस्रसो वैशागुम् हेडयीमहे अस योपसर्पथिनेलग्रे भो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुता दैनम् विश्वाभूता निसदृष्टो मृडजातिनः नमो अस्तु देलग्रेवाय सहस्राक्षाय विषुषे अथो ये अस्य सत्त्वा लोहन्तेभ्यो करम् नमः प्रमुञ्च श्च ते हस्त यिष वः पदाता भगवो वप अवतत्यधनुगम् सहस्राक्षसतेषु धे निशेल्यशल्यानाम् मुखा शिवो रः सुवना भवनः कपर्दिनो विशल्यो बाणभागम् हुता अनेशन्नस्येषभुरस्य निषङ्गतिः याते हेतिर्मे हृष्टमहस्ते बभूव ते धनुः तजास्वान् विश्वतस्त्वमजक्ष्मजा परिभुजा नमस्ते अस्त्वायुधाजानादताय धृष्णवेः उभा ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिलस्मानृणक्तु विश्वतः अथो यजशुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बका यत्रिपुरान्धकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नेलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीवन्महा देवाय नमः नभो हिरण्यबाहवेशे नान्यशाञपतये नभो नभो shudam bhadrede namo navasaspin jaragtv devate patidam patajedabo namo babhusa yavil yadinen nam patake namo navabo harikesha पुष्टानां पदजेन भो नमो भवस्य हेत्यै जगथाम् पदजेन भो नभो रुद्राया तथा विने क्षेत्राणाम् नमो रोहिताय स्थपदये वृक्षाणाम् नमो मन्त्रे कक्षाणां पदगे नवो नमो भुवन्तये वायिवत्सृतायौषधीनां पदगे नवो नम उच्चैर्घोषाया क्षन्दयते वर्धीनां पदगे नवो नम कृस्रवेताय धावे सत्त्वना ने जंगनेस्तेना पतजेन बो नमो जंगने जसुदिमते तस्कराणां पतगे जमो नमो वञ्चते परिवञ्चतेस्तायुनां पतयेण भोत भोनि छेदवे परिचरायारण्य पतये नमो नमसृकाव्यभ्यो या गुन्दभ्यो वृष्णताम् पदये नवो नभोऽसि मध्यो रक्तञ्चलध्यः प्रकृन्तानाम् पतये नभो नभ वृष्णेषु ने गिरिजरायगुलुञ्चानाम् तंघानेभ्य प्रतिसधाने भ्यश्च वो नभो नम आगच्छद्भ्यो विसृजद्भ्यश्च वो नभो नमोऽस्यो विद्य वो नभो नम आसेने झश्च जानेभ्यश्च वो नभो नम श्रेभ्य स्वपदिभ्यश्च वो नमः नव आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नवो न उगणाभ्यस्त्र गं वदेभ्यश्च वोट वो नो दृत्सेभ्यो दृत्सपदिभ्यश्च वो नवो नमो नमो पतिभ्यश्च बोन बो न भोवि रूपेभ्यो विश्वरूपेभ्यष्टभोन नमो महद्भ्यः क्षुल्लके झष्टबोनभो न मोदीभ्यो रथे झष्टबोन बोनमो रथेब्देभ्यश्च भवन बो नभः astana atastavana vana vana mah chatra jna sangra he dravya chana vana vana hasta shabdyo rasakare धश्च वो नवो नमः कुलाले झश्चर्माले झश्च बो नवो नमः पुञ्जष्टे ज्यो निषाले झश्च बो नभो नम जषकृ ज्व धन्मग्रश्च बो नमो मृगज धश्व बो नमो नमः स्वच्छस्व नमो भवा ग च रुद्रा ग च नमः वा गजपशुपदगो गे लग्रेवागज धिकन्ता गजनमकपर्दिने ज्यप्तग सा ग च नमः सहस्राक्षा गत धन्म यमो मेढष्टमाय चमजनमो ह्रस्वाय च वानाय जनमो बृहद च वर्षे गज जनमो वृद्धाय च संवृद्धन जनमो अग्रजाग प्रथमाय जनम आशभे चाजिराग जनमस्येघ्रयागसेव्याय जनमोण्याय च्याय जनमस्तो जागतत्वेप्यागता नवाज गाय जनवः पूर्वदा गता परजा श्रवाग च प्रतिश्रवाग च नम च चासुरथाय जनमसुरा गाव जनमो भर्मिणे चव रोधिने जनमो बिल्मिण जगवचने जनमश्रुताय च श्रुतसेनाय च नमो दुन्द्रभ्याय चाहनन्याय जनवो धनवे स्याग च न वो ना्याग च वै सन्तागचनभक्तोऽप्यागचामत्यागचनभो मस्या गामस्या गचन वो मे त्यागच विद्युत्यागचन मगे द्विगा गा नव्यागचनभो वा त्यागचरे गागचनभो नभः सोमाय च रुद्राय च म्राय चारुणाय च नमः शृङ्गाय जम सुमधय जनम उग्राय च भीमाय वृक्षेभ्यो हरि गेभ्यो नमस्ताराय नमः श्रीमदनायच नमस्येत्यागतको न्यागजनमः यागज नवजिरण्यागचम् प्रवत्साजनवः किं शिला जक्षगडाय जनवर्तिरजमुहस्तगभोगोष्ठ्याय चगृह्यागजनमस्तल्प्याङ्गजगेह्याङ्गजनवः त्यागजगपरे जेष्ट्यागजनवपागुंसव्यागजन यस्यागजनमशुष्ट्यागज हरित्यागजनमो प्रक्षिलदे जनवो व्यक्गेभ्यो देवानागम् यो नमो वेक्षिणकेभ्यो नमो विजुम्भत्केभ्यो नव आनिर्हतेभ्यो नव आमे मत्केभ्या द्वापे अन्धसस्पथे दरिद्रन्येन लोहिता ेषाम् मुरुढाणाभेषाम् पशूनाम् मा भे माधो जाम् किञ्चना मम ते जाते रुद्रशिवातनोः शिवा विश्वाह भेषजी शिवा रुद्रश्च भेटजेतयानामृ धीमसे विमागम् रुद्राय तमसे कर्दिने एक्षयद्वेलाय प्रभरामहेपतिम् यथाडः समसद्विपदे चतुष्पथे विश्वम् भृष्टम् ग्रामे अस्मिन्नमातुरम् मृडाडरुद्र त न मयस्कृधिषयत्वेनाय नमसा विधेमते गच्छन्तयोश्च मनुरागे पिता तदस्यापतवरुद्रप्रणीतौ माण महान्त बुतमाण अद्भकम् मानवक्षन्त बुत मानवक्षितम् माणवदे पितरम् मोदमातरम् प्रियामाणस्तनवो रुद्ररे न गोषुपान अश्लेषु वेरिणः वीरान्मानो रुद्रभामितवधेहविष्मन्तो नमसा विधेमते आराते गोघ्यभुतपोरुषघ्ने शयद्वेलायसुम् रक्षा च नो अधीतेवब्रो यथा जनः सर्व गच्छद्विवर्हाः सुहृः श्रुतम् अन्यंते युवानम् मृगन्नभेवमुपात्रमुग्राम् परिणो रुद्रस्य हेतुर्मृणक्ष्परि द्वेषस्य दुर्मतिर्घायो अवस्थिरामघवध्यस्तनष्वमेध्वत्तोकागत न गाय मृडया मेषुष्टम शिवतमशिवो नः सुमनाभवा परमे वृक्ष आयुधम् निधाय कृत्यम् वसान आयरपि न गम्यभ्रदा गेगिरितमिलोचितनमस्ते वस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यस्मन्निव बन्धुदाः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः ीषा न भगवः पराचेनामुकागृधी सहस्राणि सहस्रशोये रुद्रा अधिभूम्या तेषा गुंसहस्रयोजने वधन्वाणितम् असि अस्मिन् महत्यर्नवे अन्तरिक्षे भवा अधि नेलग्रेवाश्रनिकण्ठा वाचनाः मेलग्रे वाश्र श्रीकण्ठादिवकुम् रुद्रागुपसृता ये वृक्षेषु सस्मिन् यथानेलग्रे वा विलोहिता ये भूतानामधिपतयोमि शिखाशकपर्तिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनानि ये पथाम् पथिरक्षय ऐलभृताय व्युधा ये ते सा निचलन्ति सृकाबन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुत्रावितस्थिरे ंसहस्रयो जने बधन्वाणि तन्मसि नव रुद्रेभ्यो य पृथिव्यायन्तरिक्षे येषामह्नम् वातो हरिडमिढभस्तेभ्यो प्राजेर्दश दक्षिणा दश प्रदेचेर्दसो देतेर्दशोर्ध्वास्तेर्ध्व नमस्तेन मृडगन्धुते गन्ध स्वागर्चना द्वे तम्भोजम्भे यजामहे सुगन्धिम् वष्टिवर्धनम् बन्धनान् मृत्योर्मक्षेयमामृता यो रुद्रो अग्नो यो आप्सृजवोषधेषद्रो विश्वा भुवनाविवेश तस्मे रुद्राजनवो अस्तु तमुष्पह यस्विशुश्रुधम्भाजो विश्वस्य क्षयति भेषज स्यात् यक्ष्वा महेशो मनसाय रुद्रन्नवर्देवमसुरन् नुमस्या अयम् मे हस्त भगवानयम् मे भगवत्तरः अयम् मे एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्त तानि यज्ञस्य पायजा सर्व नवगजामहे मृत्यभे स्वाहा भगवते रुद्राय विष्णवे मृत्युर्मे भाई द्रा मा विश्वान्तगाः एनान्येनाहाप्याघस्वा न वारद्राय विष्णवे पाहि